क्रीडावसाने सर्वे शुचिवस्त्रास्वलङ्कृताः दिवसान्ते परिश्रान्ता विहृत्य च कुरुद्वहाः विहारावसथेष्वेव वीरावासमरोचयन् बलवान् भीमो व्यायम्याभ्यधिकं तदा वाहयित्वा कुमारां स्ताञ्जलक्रीडागतांस्तदा प्रमाणकोट्यां वा सार्थी शीतं वातं समासाद्य श्रान्तो मदविमोहितः विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः ततो बध्वालतापाशैः भीमं दुर्योधनस्वयं मृतकल्पं तदा वीरं स्थलात् जलमपातयत् स निस्सङ्गो जलस्यान्तम् अथ पाण्डवो विशत् आक्रामन्नागभवने तदा नागकुमारकान् ततः समेत्य बहुभिः तदा नागैर्महाविशैः अदश्यतभृशम् भीमो महादंष्ट्रैर्विशोल्बणैः ततोऽस्य दश्यमानस्य तद्विषम् कालकूटकम् हतम् सर्पविशेणैव स्थावरम् जङ्गमेन तु दंष्ट्राश्च दंष्टिणाम् तेषाम् मर्मस्वपि निपातिताः त्वचम् नैवास्य सारत्वा सारत्वात्पृथुवक्षसः ततः प्रबुद्धः कौन्तेयः सर्वं सञ्च्छिद्य बन्धनम् वोथयामास तान् सर्वान् केचिद्भीताः प्रदुद्रुवुः हतावशेषाभीमेन सर्वे वासु किमभ्ययुः ऊचुश्च सर्पराजानं वासु वासवोपमम्